अष्टषष्टितमोऽध्यायः भीम उवाच भवन्ति गेहे बन्धक्यः गीतवानायुधिष्ठिरः नताभिरुतदीव्यन्ति दया चैवास्ति तास्वपि काश्यो यद्धनमाहर्षी द्रव्यं यच्चान्यदुत्तमं तथान्ये पृथिवीपाना यानि रत्नान्युपाहरन् न च मे तत्र कोपोऽभूत् सर्वस्येषो हि नो भवान् इमं त्वतिक्रमं मन्ये द्रौपदी यत्र पण्यते एषा ह्यनर्हति बाला पाण्डवान् प्राप्य कौरवैः त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैरकृतात्मभिः अस्याः कृते मन्युरयन् त्वयि राजन्निपात्यते बाहूते सम्प्रधक्ष्यामि सह देवाग्निमानय अर्जुन उवाच न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः परैस्ते नाशितं नूनं दृशंसै धर्मगौरवं न स कामाः परे कार्या धर्ममेवाचरोत्तमं भ्रातरन्धार्मिकं ज्येष्ठं आहूतो हि परैराजा वर्तु वर्तुमनुस्मरन् दीव्यते परकामेन तन्नह कीर्तिकरं महत् भीमसेन उवाच एवमस्मिन् कृतं विद्यां यदि नाहन् धनञ्जय दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव